अथर्ग्वेदे द्वितीयाष्टके षष्ठोऽध्यायः ओहोताहो त्रिषतनेविदानस्त्वेषोदी दिवाम् असतत्सुदक्षाः अदब्दौ रतप्रमतिर्वसिष्ठः सहस्रम् भरश्रुचिजिह्वो अग्निः त्वम् दूतस्वपमुपुनः आवृषभप्रणेता अग्नेः तोकस्य नस्तनेः तनूनाम प्रयुच्छन्तिद्बोधिगोपाः मते परमे जन्मन अग्ने जन्मन्नग्ने विधेमस्तोमैरवरे सधस्थेः यस्माद्योनेः रुदारिथायजेतम् प्रत्वे हवीं शिजुहुरे समिद्धे अग्ने यजस्व हविषायजीयाञ्चृष्टितेष्टमभिगृणीहि राधाः ्यसि रजिपतीरयीनाम् त्वम् शुक्रस्य वचसो मनोता उभयम् तेन क्षीयतेव संयम् दिवे दिवे जायमानस्य तस्म कृतिक्षुमन्तम् जरितारमग्ने कृधिपतिम् स्वपत्यस्य राजः सैनानीकेन सुविदत्रो अस्मेयष्टा देवाम् आयधिष्ठस्वस्ति अरब्धो गोपा उतनः परस्पा उदनः परस्प अग्ने द्युवदुतरेव दितिः जो मनुषायत् अग्निः प्रथमोऽपि देवेणस्पदे मनुषा यत्समिद्धः श्रियम्बसानोऽमृतोऽपि चेतामर्मृजेऽन्यश्रवस्या अस्रभाजी श्रूया अग्निश्चित्रभानुर्हवम् मे विश्वाभिर्गीर्भिरमृतोऽपिचेताः श्यावारथम् वहतो चक्रे विभ्रत्रः उत्तानायामजनयन्सुषूतम् पुवदग्निः पुरुपेशाः सुगर्भाः शिरिणायाञ्चिदक्तुनावहो व्रतो वसति प्रचेताः जिघर्ण्यग्निम् भविषाः पृथुन्ति रश्चावयसा बृहन्तम् व्यधिष्ठमन्नैरभसन्दृशानम् आविश्वरः प्रत्यञ्चिघर्ण्यरक्षसा मनसा तज्जुषेता मर्यश्रीस्पृहयद्वर्णो अव्यर्नाभिमृषेः तन्वा आजर्भुराणः ज्ञेया भागम् नूनमग्निम् जुह्वा वच स्यामधुव्रचन्धनसाजो हवीमि श्रुति हवमिन्द्र मारिषण्यस्याम दावने वसूनाम् इमाहि त्वा मूर्जो वर्धयन्ति वसूयवः सिन्धवो नक्षरन्तः अमर्त्यञ्चिद्दासम् अन्यमा वृधानः उक्थेऽस्मिन्नुषूरयेषु चाकन् सोमेऽस्मिन्द्ररुद्रियेषु च तुभ्ये देतायासु मन्दसानः प्रवायवेसतेन शुभ्राः शुभ्रम् नु तेषु स्मम् वर्धयन्तः शुभ्रम् शुभ्रस्त्वमिन्द्र वा वृधानो अस्मे दासेर्विशः सूर्येण सह्याः गुहा उतो अपोद्यान्तस्तभ्वाम् समहन्नहिम् शूरवीर्येण स्तभानुत इन्द्रपूर्व्या महान्वितस्तवामनूतना स्त वज्रम् बाह्ो रुषन्तम् स्त हरिसूर्यस्य केतो हरिरुत इन्द्रवाजयन्तघृतश्च्युतम् स्वारमस्वाष्टाम् विसमना भूमिरप्रधिष्ठारम्स्तपर्वतश्चित्सरिष्यन् विपर्वतसाद्य प्रयच्छन् संमातृभिर्वावशा नो अक्रान् दूरे पारे वाणीम् वर्धयन्त इन्द्रेशिताम् धमनिम् वप्रथन्नि इन्द्रो महाम् सिन्धुमाशयानम् मायाविनम् वृत्रमस्फुरन्निः अरे देतां एतेताम् रोदसीभियाने कनिक्रदतो विष्णो अस्य वज्रात् अरो रवीद्वृष्णो अस्य वज्रो मानुषयन्मानुषो दिजोर्वात् निमायिनो दानवस्य माया अपादयत्पपिवान् सुतस्य पिबाः पिबेदिन्द्रशूरसोमम् मन्दन् कृत्वा मन्दिनः सुतासाः वृणन्तस्ते मुक्षे वर्धयन्त्वित्था सुतः पौर इन्द्रमाव ते इन्द्राप्यभूमभिप्राधियम् वने मरुतया सपन्तः अवस्यवो धीमहि प्रशस्तिम् सद्यस्ते रायो दावने स्याम श्यामदेत इन्द्रयेत ऊति अवस्य वगूर्जम् वर्धयन्तः सुष्मिन्तमय्यम् चागनामदेवास्मे रयिम् राशिवीरवन्तम् राशिक्षयम् राशिभित्रमस्मे राशिश्रद्ध इन्द्रमारुतन्नः सजोषसो ये च मन्दसानाः प्रवाजवः पान्त्यग्रणीतिम् व्यन्द्विन्नु येषु मन्दसानस्त्रिपत्सोमम् पाहि द्रह्यदिन्द्र अस्मान्सु कृत्स्वातरुद्रावर्धयोद्याम् बृहद्भिरर्कैः बृहन्धरिन्नु येते सृणानासो बर्हिः पस्त्याः वत्वोता इदिन्द्रवाजमग्मन् उग्रेष्विन्शूरमन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र प्रदोधु वश्मश्रुषु प्रीणा नो याहि हरिभ्याम् श्रुतस्य प्रीतिम् विश्वाशवः शूरयेन वृत्रमवाभिनद्दानुमौर्णवाभम् अपावृणो ज्योतिरार्याजनिसंयतः साधिरस्युरिन्द्र स ने मयेत ऊतिभिस्तरन्तो विश्वाः स्पृध आर्येणदस्योले अस्मभ्यन्तत्वाष्ट्रम् विश्वरोपवरन्धयः साख्यस्य त्रिताय अस्य सुबानस्य मन्दिरस्त्रितस्य निर्बुदम्बावृधानो अस्तः अवर्तयत्सूर्यो न चक्रम् भिरद्वलमिन्द्रो अङ्गिरस्वान् नूनम् सा ते प्रतिवदम् चरित्रे दुहीयदिन्द्रदक्षिणा मघोनि शिक्षा स्तोदृभ्यो मातिथग्भगो नो बृहद्वदेम विदधे सुवीराः यो नात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् यस्य सुष्मा द्रोदसी अभ्यसेतान्द्रम्णस्य मह्ना स जना स इन्द्राः यः पृथिवीं व्यथमानामदृं मद्यः पर्वतान्द्रकुपितामनरम्णात् यो अन्तरिक्षमिममे वरी यो यो द्यामस्तब्ध्नात् स जना स इन्द्राः यो हत्वा हि मरिणात् सप्तसिन्धोऽन्योगा उदायतपधा बलस्य यो अश्मनोरन्तरग्निम् जानसंरक्षमत्सुसजना स इन्द्राः येनेमा विश्वाच्यमनाकृता नियोता संवर्णमधरङ्गुहाकाः श्वनिवयोजिगीमाल्लक्षमाददर्यः पुष्टानि स जना स इन्द्राः यं स्मा आपृच्छन्ति कुहसेति घोरमुतेमा आ हुर्मैषो अस्तीत्ये एनम् सोऽर्यः पुष्टिर्विज इवामिनातिश्रदस्मै सत्तसजना स इन्द्राः यो रध्रस्य चोदितायः कृशस्य यो ब्रह्मणो नाथमानस्य कीरेः युक्तग्राहाणो यो विता सुिप्रः सुतसोमस्य स जनास इन्द्राः यस्याश्वासः प्रतिशयस्य गावो यस्य ग्रामायस्य विश्वे रथासः यः सूर्यञ्य उषसञ्जानयो अपा नेता स जनास इन्द्राः यङ्क्रन्दसी संयति विह्वये एते परे पर उभयाः अमित्रा आह समानञ्चिद्रथमादस्थिवांसानाः हवेते स जनास इन्द्राः यस्मान्न ऋते विजयन्ते जनाः सोऽयञ्जयुध्यमाना अवसे हवन्ते यो विश्वस्य प्रतिमानम् बभूवयो अच्युतच्युत्सजनास इन्द्राः निः शश्वतो मह्ये नो दधाः आनानमन्यमानान् सर्वाः जघाना निर्शर्धतेनानुददाः अतिश्रुद्ध्याोऽर्हन्ता स जनास इन्द्राः यश्च पर्वते सु क्षियन्तम् जत्वांश्याम् शरद्यम्भविन्दत् दानुंशजां सजना स इन्द्राः यः सप्त रश्विरवृषभस्तु विष्मानवासृजत्सर्तवे सप्त सिन्धून् यो रौ हिणमस्फुरद्वज्रवा वृद्यामारोहन्तं स जना स इन्द्राः द्यावाचिदस्मै पृथिवीनमे ते सुष्माचिदस्य यः सो ओमपानिजितो वज्रबाहुर्यो वज्रहस्तस्य जना स इन्द्राः यः सुन्दवम् तमवति यः पतन्तै यशंसन्तम् यःशमानभूति यस्य ब्रह्मवर्धनै यस्य सोमो यस्येदम्राधः स जना स इन्द्राः यः सुन्दते पचते रुध्र आचिद्वाचन्दर्दर्शि सखिला सत्यः वयन्त इन्द्रविश्वः प्रियासः सुवीरा आसो विदथमापदेम ऋतुर्जनित्रेतस्या आ अपस्परिमक्षो जात आविशद्या सुवर्धते तदा आहना अभवत्पिप्युषे पयोंशोऽः पीजूषम् प्रथमन्तदुःख्यम् सध्रीमायन्ति परिबिभ्रतीः पयो विश्वप्स्न्याय प्रभरन्त भोजनम् समानो अध्वाः प्रवताः मनुष्यते यस्ताकृणोः प्रथमम् सा स्युक्त्याः अन्वेकोः वदति यद्ददा आति तद्रूपामिनन्तदप एक ईयते विश्वा एकस्य विनुदस्तिक्षते यस्ताकृणोः प्रथमम् सा स्युत्याः प्रजाभ्यः पुष्टिम् विभजन्त आसते रयिमिव पृष्ठम् प्रभवन्तमायते असिं वन्दंष्ट्रैः पितुरत्तिभोजनयस्ता कृणोः प्रथमम् सा अधा अधणोः पृथिवीम् सन्दृशे दिवे योधौ दीनामहिहन्नारिणःपथः तन्तास्तो मेऽपि रुदभिर्नवादिनम् देवम् देवा अजनन् सास्युक्त्याः यो, यो भोजनम् च दयसे च वर्धनमार्द्रादाशुष्कम् सशे सशेरेपधिनिदधिषे विवस्पति विश्वस्यैक ईशि शेषाः स्युख्याः यः पुष्पिणीश्च प्रस्पश्च धर्मणाधिरा नेव्या अवनीरधारयः यश्चासमाजनो दिव्यो दिव उरुरोर्वा अभिरसा सुख्याः यो नार्मरम् सहवसुन्निहन्तवे प्रक्षाय च दासवेशाय चावहः ऊर्जयन्त्य अपरिविष्टमास्यमुतैवाद्यपुरुकृत्सा स्युक्त्याः शतम् वायस्य दश साकमाद्य एकस्य सृष्टौ यद्धचोदमाविध अरज्जोदस्योऽसमुनदभीतये सुप्राव्योः अभवः सा विश्वेदनुरोधना अस्य ओंस्य ददुरस्मै ररे कृत्नवेधनम् षणस्तभ्ना विष्ठिरः पञ्चसन्दृशः परिपरो अभवः सा सुख्याः सुप्रवाचनन्तमवीरवीर्याः अयदेके एलक्रतुनाविन्दसेवसु जातुष्ठिरस्य प्रवयः सहस्वतो याचकर्थसेन्द्रविश्वाः सुख्याः अरमयः सरपरस्तरायकन्तुर्वीतये च वैयाय च श्रुतिम् नीचा सन्तमुदनयः परावृजम् रान्धम् श्रोणम् श्रवयन्था स्युख्याः अस्मभ्यन्तद्वसोदानाय अरध्वर्यवो भरतेन्द्राः यशो ममामत्रेभिः सिञ्च तामद्य मन्धाः कामीः वीरः स तमस्य प्रीतिम् जुहोतपृष्णेतदिदेशमस्ति अध्वर्यवो यो अपोभौरिवांसम् वृत्रम् जघानाशन्ये एव वृक्षम् तस्मा एतम् भरत तद्वशायम् एष इन्द्रोः अर्हति प्रीतिमस्य अध्वर्यवो यो दृभिः योगा उदा जतपहि वलम्बः तस्माह एतमन्तरिक्षेदव तमिन्द्रं सोमैरोर्णुरजोर्नवस्त्रैः अर्ध्वर्यवोय उरणञ्जघा नरवचख्वाम् सन्नवतिम् च बाहून् यो अर्बुदवगीतापबाधे तमिन्द्रम् सोमस्य पृथे अध्वर्यवोयस्वष्णम् यकारयः शुष्णमशु संयोम् यः पिप्पृन्नवजिञोरुधिक्रान्तस्मा इन्द्रायान्धसो जुहोत अध्वर्यवोयः शतम् शम्भरस्य पुरो बिभेदाश्मनेव पूर्वीः यो वर्चिनः शतमिन्द्रः सहस्रमपावपद्धरदासोमस्मै अध्वर्यवोयः शतमासहस्रम् भूम्याः उपस्थेमपजन्वान् उत्सस्यायोरतिथिग्वस्य वीरान्यावृणग्भरता सोममस्मै अध्वर्य वोयन्दरः कामयाध्वे सृष्टिवहन्तो न शथातदिन्द्रे गभस्तिभूतम् भरतः श्रुतायेन्द्राय सोमयी यज्ञवो जुहोता अध्वर्यवः कर्तनाः सृष्टिमस्मै वने निपोतम् वन उन्नयध्वम् विषाणो हस्त्यमभिवा वसेव इन्द्रायसोमम्रञ्जुहोत अध्वर्यवः पयसोधर्यथागोः सोमेऽभिरीम् वृणता भोजमिन्द्रम् वेदाहमस्यरिभृतम् एतद्रित्सन्तम् भूयो येत अध्वर्यभो यो दिं यस्य वस्वो यः पार्थिवस्य लक्षण्यस्य राजा तमूर्धरन्नप्रणताय वेलेन्द्रम् सोमेऽभिस्ततपो गो अस्तु अस्मभ्यन्तद्वसो दानाजराधः समर्थय स्वयम् इन्द्रयच्चित्रम् श्रवस्या हृद्योन् बृहद्वदेमभिरथे सुवीराः स्य महतो महारि सत्या सत्यस्य करणानि वोचम् त्रिगद्रुगेष्वपि मत्सुतस्यास्य मदे अहिमिन्द्रो जघान अपंशेद्यामस्तभायद्बृहन्तवा रोदसी अपणदन्तरिक्षम् सधारयत्पृथिवीम् वप्रथच्च सोमस्य तामद इन्द्रश्चकार सद्मे भप्रा चोभिमायमानैर्वज्रेणघान्यतृणम् नदीनाम् वृथा सृजत्पथिभिर्दीर्घयाथैः सोमस्य तामदैन्द्रश्चकार सप्रगत्यादभीतेर्विश्वमथायुधयुद्धे अग्नौ सङ्गोभिरश्वैरसृजद्रथेभिः सोमस्य तामद इन्द्रश्चकार स ईम् महेन्दुनिमेतो रम्णाथो अस्मात् न पारयत्स्ति तदुत्स्नाय रयिमभिप्रतस्थुः सोमस्य तामद इन्द्रश्चकार सोदन्तम् सिन्धुमरिणान्महित्वा वज्रेणान उषसः सम्पिवेश अजवसो जनेवृच्छन् सोमस्य तामद इन्द्रश्चकार स विद्वाङ्गपगोहङ्गलीनाहा माविर्भवन्नुरतिष्ठत्परावृक् प्रतिश्रोणस्थाद्या अनगतिष्ठ सोमस्य तामद इन्द्रश्चकार भिनद्बलमङ्गिरोभिर्गृणानोऽपि पर्वतस्य दृम्भिधान्यैरत् ऋणग्रोधांसि कृत्रिमान्येषाम् सोमस्य तामद इन्द्रश्चकार स्वप्ने एनाभ्युप्यातुमुन्दुलिञ्चलकण्ठदस्वम्ब्रतभीतिमावहीचिदत्र विविधे हिरण्यम् सोमस्य तामद इन्द्रश्चकार नूनम् सा ते प्रतिपरम् चरित्रे दुहीयदिन्द्रदक्षिणा मघोनीः शिक्षा स्तोत्रभ्यो मादिभग्भगो नो विदते सुवीराः प्रभः सताम् ज्येष्ठतमाय सुतिमग्नाविव समिधाने हविर्भरे इन्द्रमरुर्यम् जरयन्तमुक्षितम् सनाद्युवा नमवसे हवामहे यस्मादिन्द्रादृहतः किञ्चने मृते विश्वान्यस्मिन् सम्भृताधिवीर्याः जठरे सोमन् तन्वी ईश हो महोहस्ते वज्रम्भरति शीर्षणि क्रतुम् न क्षोणीभ्याम्बरिभ्येत इन्द्रियन्न समुद्रैः पर्वतैरिन्द्रते रथाः न ते वज्रमन्वश्नोति कश्च न यदाशु विष्पतसि योजना यस्मै यजटाय धृष्णवे क्रतुम् भरन् विरुषभायसश्च वृषाय च हविषा विदुष्टरः पिबेरेन्द्रसोमम् वृषभेण भानुनाः वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे वृषणाद्धर्यो वृषभासो अद्रजो वृषणम् सोमम् वृषभाय सुश्वली वृषा ते वज्र उत ते वृषारथो वृषणा हरी वृषभाण्यायुधा कृष्णो मदस्य वृषभत्वमीशिष इन्द्रसोमस्य वृषभस्य कृप्नुहि प्रतेनावन्नसवने वचुभम् ब्रह्मणायामि सवनेषु तादृशिः कुविन्नो अस्य वचसो निबोधिषदिन्द्रमुत्सन्नवसुनस्य चामहे पुरासं सम्बाधादभ्यापवृत्स्वनो धेतुर्नवत्संयवसस्य विद्विषि सकृत्सुते सुमतिभिश्चतक्रतो सम्पत्नी भिन्नभिषणो न धीमहि नूनम् साते प्रतिपरम् चरित्रे तुहीयदिन्द्रदक्षिणामघोनी शिक्षाः स्तोतृभ्यो मातिथग्भगो नो बृहद्वदेमविदधे सुवीराः पदस्मै नव्यमङ्गिरस्वदर्चत सुष्माय तस्य प्रत्नथोदीरते विश्वार्यद्गोत्रा सहसा परिवृतामदे सोमस्य दृम्भितान्यैरयत् प्रभूद्वयोः प्रथमा यथाय सहो यो मिमा नो नमातिरत् सूरो यो यत्सुतन्वम् परिण्यत शीर्षनिद्याम् महिना प्रत्यमुञ्चत अधाणो प्रथमम् वीर्यम् महद्यतस्याग्रे ब्रह्मणा शुष्ममैरजः अथेष्ठेन हर्यश्वेन विच्युताः प्रजिरयः सिस्रदे सध्रिया अपृथग अथा यो विश्वा भुवनाभिमज्मनेशा न कृत्प्रवया अभ्यवर्धत आद्रोदसी ज्योतिषा समं ययत् स प्राचीनान् पर्वतान्द्रम् अथा आ रयत्पृथिवीम् विश्वधाय समस्तभ्रान् मायजाद्यामपस्रसाः सा स्मारम् आहुभ्यायम् पिता कृणोद्विश्वस्मादा जनुषो वेदसस्परि येनापृथिव्यान्निक्रिमिम् शयध्यैवज्रेण हत्यभृणक्तु विश्वणीः रमाजोरिवपित्रोः स कृधिप्रजेतमुपमास्याभरदद्धिभागम् तन्वो येन मामहाः भोजन्तामिन्द्रभयम्भुवे मददिष्टमिन्द्रापां शिवाजान अविड्ढे इन्द्रचित्रया न ऊती कृधिपृषन्निन्द्रवस्य सोनः दूनम् सा ते प्रतिपरम् यदित्रे दुहीयदिन्द्रदक्षिणा मघोनीः शिक्षाः स्तोत्रभ्यो मातिथग्भगो नो बृहद् सुवीराः प्रातरथो नवो योजिषस् निश्चतुर्विगस्त्रिकषः सप्तरश्मिः दशा मनुष्यः स्पर्शाः स इष्टिभिर्मतिहीरम् ह्योऽभूत् अन्यस्यागर्भमन्यपूजनन्दसो अन्ये विः सजतेजेन्योरुषाः हरेनुकम्रथ इन्द्रस्य योजमायै सूक्तेन वजसानवेन मोषु त्वामत्र वहवो हि विप्रानिरीनमन्यजमानासो अन्ये आद्वाभ्याम् हरिभ्यामिन्द्रया ह्या चतुर्भिरा षड्भिर्होयमानः ष्टाभिर्दशभिः सोमपेयमयम् सुत सुमखमामृधः सः आविंशत्या त्रिंशतायाह्यर्वाङ्गा चत्वारिंशदा हरिभिर्युजानः आपञ्चाशता सुरथेऽभिरिन्दाषष्ट्या सप्तत्या सोमपेयम् आशीत्या नभत्यायाह्यर्वाङ्गाशतेन हरिभिर्ह्यमानः अयम् हि तेषु न होत्रेषु सोम इन्द्रत्वाजापरिषिक्तो मराय मम ब्रह्मेन्द्रयाह्यच्छा विश्वाहरे श्वारथस्य पुररुत्रा हि विहव्यो बभूथास्मिंशो रसवनेमादयः स नमः इन्द्रेण सख्यम् वियोषदस्मभ्यमस्य दक्षिणा उपज्येष्ठेवे गभस्तौ प्राये प्राये जिगीवांसस्याम नूनम् साते प्रतिपरम् चरित्रे दुहीयदिन्द्रदक्षिणा मघोनी शिक्षास्तोतृभ्यो मातिभग्भगो नो बृहद्बरेमविरथे मा सुवीराः अपाय यस्यान्दसोमरायमनीषिणः प्रयसः यस्मिन्निन्द्रः प्रतिपि वा वृधान ओको ओ रथे ब्रह्मण्यन्तश्च नराः अस्य मन्दानो मध्वो वज्रहस्तो हिलिन्द्रो अर्णो अजनयत्सूर्यम् विरद्गा अक्तु नाम्भयुना निसाधत् सो अप्रतीनिमनवे पुरोणीन्द्रो दाशद्दाशुषेहन्ति वृत्रम् सद्यो यो नृभ्यो अत सा योगोत्पस्प्रधारेभ्यः सूर्यस्य सातौ स सुन्दर इन्द्रः सूर्यमा आयद्वयिम् गुहरवद्यमस्मै भरतम् सन्मैतशोदशस्यन् सरन्धयत्सरिवः सारथयशुष्णमशु शङ्कुजमङ्कुत्साय दिवो दासायनपतिम् च नवेन्द्रः पुरोऽव्यैरच्छम्बरस्य एवात इन्द्रो च महेमश्रवस्यानत्मनाः वाजयन्तः अश्यामतत्साप्तमाशुषाणाननमोपधर देवस्य पीयोः ते कृत्सफलाश्यूरन्नावस्य वोनमयुनानिदक्षुः ब्रह्मण्यन्त इन्द्रते रवीयविषमूर्जम् सुक्षितिम् सुन्दमस्युः ऊनम् साते प्रतिपरञ्जरित्रे दुहीयदिन्द्रदक्षिणा मकोनी शिक्षाः स्तोत्रभ्यो माति षग्भगो नो बृहद्वदेव विलते सुवीराः वयम् देवय इन्द्रविद्धिषुणः प्रभरामहे वाजयुर्नरथम् विपन्यबोधीध्यतो मनीषा सुन्दमिय क्षन्द्रस्वापतो नॄन् त्वन्न इन्द्रत्वाभिरू त्वा आयतो अभिष्टिपासि जनान् त्वविनो दाशुषोऽवरुतेरभियो नक्षदिक्त्वा स नो युवेन्द्रो अजोहोत्रः सखा यशंसन्तम् यश समानमूरीपचन्तम् च स्तुबन्तम् च प्रणेशत् तरोस्तु श इन्द्रन्तम् गृणेशे यस्मिन् पुरावाभृदुश्चदुश्च सरस्वः कामम् पेपरदि यादो ब्रह्मण्यतो नूतनस्यायोः सोऽङ्गिरसामुचथा आदिजुश्वान् ब्रह्मा आतूतोदिन्द्रो उष्णन् नृषसूर्येणस्तवानष्णस्य चिच्छिष्णत्पूर्व्याणि सहश्रुतहिन्द्रो नामूर्धो भवन्मनुषेदस्मतमः अपप्रियमर्षसारस्य साह्वान् शिरोभरद्दासस्य स्वधावान् सर्वत्रहेन्द्रः कृष्णयो लीः पुरन्दरो दासीरैरयद्री अजनयन्मनपेक्षामपश्च सत्राशम् संयजमानस्य तूतो तस्मै तपस्या अमरुदायि सत्रेन्द्राय देवेभिरर्नसादौ प्रति यदस्य वज्रम् बाह्वोर्धुरहत्पेदस्योम् पुर आयशीर्मिता आरीत् नूनम् साते प्रतिवरम् चरित्रे दुहीयदिन्द्रदक्षिणामगोनी शिक्षा स्तोत्रभ्योमादिषग्भगो नो बृहद्वदेम विदधे सुवीराः विश्वजिते एरजिते एष्वर्जिते सत्राजिते ए अश्वजिते गोजिते ए अब्जिते ए भरेन्द्रायसोमयी यजताय हर्यतम् अभिभुवेभिभङ्गाय वन्वदेशा अशाय सहवाराय वेदसे ए तु विग्रजे वह्नजे तवे सत्रासाहे न म इन्द्रायवोचत सत्रासाहो जनभक्षो जनम् सहश्च्यवलो युध्वो अनुजोषमुक्षितः कृतञ्जयः सहृदिर्विक्ष्वा आरित इन्द्रस्य वोचम् प्रकृतानि वीर्याः अनानुदो वृषभो दोधतोपथो गम्भीररुश्वो असमष्टकाव्यः रद्ध्रजोदस्नथनो वीडितः स्पृथुरिन्द्रः सुयज्ञ उषसस्वर्जनत् यज्ञेन गातुमत्तुरोऽविद्रुरेधियो हिन्वाना उशिजो मनीषिणाः अभिस्वरा निषदागा अपश्यप इन्द्रे हिन्वाना द्रविणा न्याशत इन्द्रः श्रेष्ठा निद्रविणा निधेहि चित्तिन्द्रक्षस्य सुखकत्वमस्मे त्रिकद्रुगेषु महिषोऽ शिरन्तु विषुष्मस्तृपत् सोममपि मद्विष्णुना सुतम् यथा वशत् समादमहि कर्म कर्तवे महाभुरुम् सैनम् सश्च देवो देवम् सत्यमिन्द्रम् सत्य इन्दोः अध अधत्तान्यम् जठ रे प्रेमरिच्यतसैनम् सश्चद्देवो देवम् सत्यमिन्द्रम् सत्य इन्दोः साकम् जातः क्रतुना साकमोजसाववक्षितसाकम् वृद्धो वीर्यैः सासहिर्मृथो वितर्षणिः दाताराधस्तुभते काम्यम्बसुसैनम् सश्चद्देवो देवम् सत्यमिन्द्रम् सत्य इन्दोः तवत्यन्नर्यम् नृतोप इन्द्रप्रथमम् पूर्वम् दिवि प्रवाच्यम् कृतम् यद्देवस्य शमसा प्राणिणा असुम् ऋणन्नपः भुपर्दिष्टमभ्यादेवमोजसा विदादूर्जम् शतक्रतुर्विदादिशम् गणानान्त्वा गणपतिम् हवामहे कविम् कबीरामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्वतः आनः शृण्वन् नोतिभिः सीदसादनम् देवाश्चित्ते असुर्यप्रजेतसो बृहस्पते यज्ञियम् आगमा आनशुः उस्रा इव सूर्यो ज्योतिषामहो विश्वे एषा विजनिता रथमृतस्य तिष्ठसि बृहस्पते भीमममित्रदम्भनम् रक्षोहणम् गोत्रभिदम् स्वर्विदम् सुनीतिभिर्नयसित्राय सेजनयस्तुभ्यम् दाशान्नतमम् होष्णवत् ब्रह्मद्विषस्तपनो मन्युवीरसि बृहस्पते महितत्ते महि त्वरम् न तमम् हो न दुरितम् कुतश्च नारादयस्तिरुर्नत्रया विनाः विश्वा इदस्माद्धरसो विवाहसेयम् सुगोपा रक्षसि ब्रह्मणस्पते तन्नो गोपाः पतिकृद्विचक्षणस्तवताय मतिभिर्जरामहे बृहस्पते योनो नो अभिह्वरो तथे स्वातम् मर्मर्तु दुच्छुना हरस्वती बृहस्पते अपतम् वर्तया पथः सुगन्नोः अस्यै देववीतये कृतारन्ता तनूराहम् हवामहे वस्पर्तरधिवक्तारमस्मयुम् बृहस्पते वनिदोनिबमातुरे वा उत्तरम् सुम्नमुन्नशन् त्वया वयम् सुवृथा ब्रह्मणस्पते स्पार्ह वसुमनुष्यार यानो दूरे तडितो या अरातयोभि सन्ति जम्भयाता अनप्रसाः त्वया वयमुत्तमन्धेमहे वयो बृहस्पतेऽवप्रिणाशस्तिरायुजा मानो दुःशंसो अभिदिक्सुरीशतप्रसुशंसामदिभिस्तारिषीमहि अनाहृदो वृषभो जग्मिराहवन्निष्टप्ता शत्रुम् वृतनासुसासहिः असि सत्यरिणया ब्रह्मणस्पत उग्रस्य जिद्दमिता वीलुहर्षिणाः अदेवे न मनसा यो निषण्यति शासामुग्रो मन्यमानो जिघांसति बृहस्पतेमाप्रणक्तस्य नो वधोनिकर्ममन्युन्दुरेवस्य शर्धतः भरेषु हव्यो नमसोपसद्यो गन्ताबाजेषु सनिता विश्वा इदर्यो अभिदिप्स्वो ओ, ओ, ओ, ओ, ओ, ओ मृधो बृहस्पतिर्विवर्हा रथाङ्गिव तेजिष्ठया तपनिरक्षसस्तपये निदे दृष्टवीर्यम् आविस्पत्कृष्व सत्त उत्थ्याम् बृहस्पते विपरिरापो अर्धय बृहस्पते अधियदर्यो अर्हा यद्येन यच्छव सरतप्रजातल तस्मासुद्रविणन्धे हि चित्रम् मानस्तेनेभ्यो ये अभिद्रुहस्पते निरामिणो अरिपवोऽन्येषु जागृधुः आदेवानामोहते विव्रयोः हृदि बृहस्पतेन परः साम्नोऽविदुः विश्वेभ्यो हित्वा भुवनेभ्यस्परित् नष्टाजनत्साम्नः साम्नः कविः सरणचिरणया ब्रह्मणस्पतिर्द्रुहो हन्ता महरतस्य धर्तरि तव श्रिये व्यजिहीतपर्वतो गवाङ्गोत्रमुदसृजोयिलङ्गिरः इन्द्रेण युजातमसापरीकृतम् बृहस्पते निरपामौजोऽर्णवम् ब्रह्मणस्पतेत्तमस्य यन्ता सूक्तस्य बोधितनयम् च विश्वन्तर्भद्रञ यदवन्ति देवा बृहद्वदेम विदधे सुवीराः इति द्वितीयाष्टके षष्ठोऽध्यायः